नारदपुराणम् पूर्वार्थम् अध्यायम् 16 नारद उवाच हिमवद्गिरिमासाद्य किं चकारमहीपतिः कथमानितवान् गङ्गामेदन्मे वक्तुमर्हसि सनक उवाच भगीरथो महाराजो जडाचीरधरो मुने गच्छन् हिमाद्रिं तपस्ये प्राप्तो गोदावरीतटम् तत्रापश्यत् महारण्ये भृगोराश्रममुत्तमं कृष्णसारसमाकीर्णं मादङ्गगणसेवितम् भ्रमद्भ्रमरसङ्घुष्टं कूजद्विषगसङ्कुलम् व्रजद्वराहनिकरं चमरीपुच्छीजितं नृत्यन्मयूरनिकरं सारङ्गादिनिषेवितं प्रवर्धितमहावृक्षं मुनिकन्याभिरादराद शालतालतमालाढ्यं नून हिन्तालमण्डितं मालतीयूतिकाकुन्द चम्पकाश्वभूषितम् उद्भुल्लकुसुमोपेदमृषिसङ्घनिषेवितं वेदशास्त्रमहाङ्कोशमाश्रमं प्राविशद्भृगोः गृणन्दं परमं ब्रह्मभृतं शिष्यगणैर्मुनिं तेजसा सूर्यसदृशम् भृगुम् तत्र ददर्शसः पाद पादसङ्ग्रहणादिना आदिभ्यम् भृगुरप्यस्य चक्रे सन्मानपूर्वकम् कृतादिभ्यक्रियो राजा भृगुणा परमर्षिणा उवाच प्राञ्जलिर्भूत्वा विनयान्मुनिपुङ्गवम् भगीरथ उवाच भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद पृच्छामि भवभीदोऽहम् नृणामुद्धारकारणम् भगवां स्तुष्यदेयेन कर्मणा मुनिसत्तम तन्ममाख्याहि सर्वज्ञ अनुग्राह्योऽस्मि ते यदि भृगुरुवाच राजंस्तवेप्सितम् ज्ञातम् त्वम् हि पुण्यवदाम्बरः अन्यथा स्वकुलम् सर्वम् कथमुद्धर्तुमर्हसि यो वा को वापि भूपालस्वकुलम् शुभकर्मणा उद्धर्तु कामस्तम् विद्यान्नररूपधरम् हरिम् कर्मणा येन देवेशो नृणामिष्टफलप्रदः तत्प्रवक्ष्यामि राजेन्द्रशृणुष्व सुसमाहितः भव सत्यपरो राजन्नहिंसानिरतस्तथा सर्वभूतहितो नित्यम् आनृतम् वद वै क्वचित त्यज दुर्जनसंसर्गम् भज साधुसमागमम् कुरु पुण्यमहोरात्रम् स्मर विष्णुम् सनातनम् कुरुपूजाम् महाविष्णोर्याहि शान्तिमनुत्तमां द्वादशाष्ठाक्षरं मन्त्रं जपश्रेयो भविष्यति भगीरथ उवाच सत्यं तु कीदृशं प्रोक्तं सर्वभूदहितं मुने अनृतं कीदृशम् प्रोक्तं दुर्जनाश्चापि कीदृशाः साधव कीदृशा प्रोक्तास्तथा पुण्यं च कीदृश्यं स्मर्तव्यश्च कथं विष्णुस्तस्य पूजा च कीदृशी शान्तिश्च कीदृशी प्रोक्ता को मुने को वा द्वादशवर्णश्च मुने तत्त्वार्थकोविद कृपां कृत्वा महिपरां सर्वं व्याख्यातुमर्हसि भृगुरुवाच साधु साधु महाप्राज्ञ तव बुद्धिरनुत्तमा यत्पृष्ठोऽहं त्वया भूप तत्सर्वं प्रवदामिते। यथार्थकथनं यत्तत्सत्यमाहुर्विपश्चितः धर्माविरोधतो वाच्यं तद्धिद्धर्मपरायणैः देशकालादिविज्ञायस्वयमस्याविरोधतः यद्वजः प्रोच्यदे सद्भिस्तत् सत्यमभिधीयते सर्वेषामेव जन्तूनामक्लेशजननं हि तत् अहिंसा सा सर्वकामप्रदायिनी कर्मकार्यसहायत्वमकार्यपरिबन्धिता सर्वलोकहितत्वं वैप्रोच्यते धर्मको विदैः इच्छानुवृत्तकथनं धर्मा धर्मा विवेकिनः अनृतं तद्धि सर्वश्रेयो विरोधितद् येलोके लोके द्वेषिणो मूर्खा मार्गरदबुद्धयः ते राजन् दुर्जनाज्ञेया सर्वधर्मबहिष्कृताः धर्माधर्मविवेकेन वेदमार्गानुसारिणः सर्वलोकहितासकृदा साधवः परिकीर्तिताः हरिभक्तिकरं यत्तत्सद्भिश्च परिरञ्जितम् आत्मनः प्रीतिजनकं तत्पुण्यं परिकीर्तितं सर्वं जगदिदं विष्णुर्विष्णुः सर्वस्य कारणम् अहं च विष्णुर्यज्ञानं तद्विष्णुस्मरणं विदुः सर्वदेवमयो विष्णुर्विधिना पूजयामि तम् इति या भवति श्रद्धा सा तद्भक्तिः प्रकीर्तिदा सर्वभूतमयो विष्णुः परिपूर्णः सनातनः इत्यभेदेन या समदा सा प्रकीर्तिदा समदा शत्रुमित्रेषु वशित्वं च तथा नृपा यदृच्छालाभसन्तुष्टिः सा शान्तिः परिकीर्तिदाे ते सर्वे समाख्यादास्तपःसिद्धिप्रदा नृणाम् समस्तपापराशीनान्तरः सा नाशहेदवः अष्टाक्षरम् महामन्त्रं सर्वपाप प्रणाशनं वक्ष्यामि तव राजेन्द्रपुरुषार्थैकसाधनम् विष्णोप्रियकरं चैव सर्वसिद्धिप्रदायकम् नमो नारायणायेदि जपेत्प्रणवपूर्वकम् नमो भगवते प्रोच्य वासुदेवाय तत्परम् प्रणवाद्यं महाराजद्वादशार्णमुदाहृदम् द्वयोः समं प्रवृत्तौ च निवृत्तौ च साम्यमुद्दिष्टमेधयोः शङ्खचक्रधरं शान्तं नारायणमनामयम् लक्ष्मीसंश्रिध वामाङ्गं तथा भयकरं प्रभुं किरीडकुण्डलधरं नानां मण्डनशोभितम् भ्राजत्कौस्तुभमालाढ्यं श्रीवत्साङ्गितवक्षसं पीताम्बरधरं देवं सुरासुरनमस्कृतम् ध्याये धनादिनिधनं सर्वकामफलप्रदम् अन्तर्यामी ज्ञानरूपी परिपूर्णः सनातनः एतत्सर्वं समाख्यादं यत्तु पृष्टं त्वया नृप स्वस्तितेस्तु तपःसिद्धिं गच्छ लब्धुं सुखम् ेवमुक्तो महीपालो भृगुणा परमर्षिणा परमां प्रीतिमापन्नः प्रपेदे तपस्ये वनम् हिमवद्गिरिमासाद्य पुण्यदेशे मनोहरे नादेश्वरे महाक्षेत्रे तपस्ते पेदि दुश्चरम् राजातृश्रवणश्नायी कन्दमूलफलाशनः कृतातिथ्यर्हणश्चापि नित्यं होमपरायणः सर्वबोधहिदशान्दो नारायणपरायणः पत्रायः पुष्पैः फलैस्तो यैस्त्रिकालं हरिपूजकः एवं बहु तिथं कालं नीत्वा यात्यन्तधैर्यवान् ध्यायन्नारायणं देवं शीर्णपर्णाशनो भवत् प्राणायामपरो भूत्वा राजा परमधार्मिकः निरुच्छ्वा सस्तपस्तप्तुम् ततः समुपचक्रमे ध्यायनारायणं देवमनन्दमपराजितं षष्टिवर्षसहस्राणि निरुच्छ्वासपरो भवत् तस्य न सा पुडाद्राज्ञो वह्निर्जज्ञे भयङ्करः तं दृष्ट्वा देवदा सर्वो वेत्रस्ता वह्नितापिताः अभिजग्मुर्महाविष्णुं यत्रास्ते जगदाम्पदिः क्षीरोदस्योत्तरम् तीरम् सम्प्राप्यत्रि दशेश्वराः अस्तु वन्देवदेवेश्यं शरणागतपालकम् देवा ऊचुः नतास्म विष्णुं जगदेकनाथं स्मरत्समस्तार्तिहरं परेशम् स्वभावशुद्धं परिपूर्णभावं वदन्ति यज्ञानतनुं च तज्ञाः ध्येयः सदा योगिवरैर्महात्मा स्वेच्छा शरीरैकृदेवकार्यः जगत्स्वरूपो जगदादिनाथस्तस्मै नदा स्मः पुरुषोत्तमाय यन्नामसङ्कीर्तनदो कलानां समस्तपापानिलयं लयं प्रयान्ति मेषड्यं पुरुषं पुराणं नतास्म विष्णुं पुरुषार्थसिद्ध्यै यत्तेजसा भान्तिदिवाकराद्या नादिक्रमन्ध्यस्य कदापि शिक्षाः कालात्मकं तं त्रिदशाधिनाथं न मा महे वै पुरुषार्थरूपम् जगत्करोत्यब्ज भवति रुद्रः पुनादिलोकान्च्छ्रुदिभिश्च विप्राह तमादिदेवं गुणसन्निधानं सर्वोपदेष्ठारमिदा शरण्यम् परं वरेण्यम् भार्यं मधुकैटभारिं सुरा सुरासुराभ्यर्चितपादपीठं सद्भक्तसङ्कल्पितसिद्धिहेतुं ज्ञानैकवेद्यं प्रणतास्मदेवम् अनादिमध्यान्तमजं परेश्यमनाद्यविद्याख्यदमो विनाश्यम् सच्चित्परानन्दखनस्वरूपं रूपाधिहीनं प्रणदास्म देवम् नारायणं विष्णुमनन्दमीशम्पीदाम्बरं पद्मभवादिसेव्यं यज्ञप्रियं यज्ञकरं विशुद्धं न दास्म सर्वोत्तमव्ययं तम् इति स्तु दो महाविष्णुर्देवैरिन्द्रादिभिस्तदा चरितं तस्य देवानां संन्यवेदयत् तदो देवान् समाश्वास्य दत्त्वाभयमनञ्जनः जगाम यत्र राजर्षि तपस्तपदिनारद शङ्खचक्रधरो देवः सच्चिदानन्दविग्रहः प्रत्यक्षदामगा तस्य राज्ञः सर्वजगद्गुरुः तं दृष्ट्वा पुण्डरीकाक्षं भा भासिददिगन्धरम् अदसि पुष्पसं काश्यम् पुरत्कुन्तलमण्डितम् स्निग्धकुन्तलवक्त्राज्यं बिभ्राजन्मुकुडोज्ज्वलं श्रीवत्सकौस्तुभथरं वनमाला विभूषितम् दीर्घबाहुमुदाराङ्गं लोकेशार्चितपङ्कजं नाम दण्डवद्भूमौ भूपतिर्नम्रकन्धरः अत्यन्तपर्षसम्पूर्णः सरो माञ्जस्सगद्गदः कृष्णकृष्णेधि कृष्णेधि श्रीकृष्णेधि समुच्चरन् तस्य विष्णुः प्रसन्नात्मा ह्यन्तर्यामि जगद्गुरुः उवाच कृपया विष्ठो भगवान् भूतभावनः श्रीभगवानुवाच भगीरथमहाभागतवाभीष्टम् भविष्यति आगमिष्यन्ति मल्लोगम् तव पूर्वपितामहा मम मूर्त्यन्तरं शम्भुं राजन्स्तोत्रैस्वशक्तितः तु सकलं कामं सवै कामम् स वै सद्य करिष्यति यस्तु जग्राहशिनम् शरणम् समुपागतम् सुखप्रदं। शानम् स्तोत्रैस्तुत्यम् सुखप्रदम् अनादिनिधनो देवः सर्वकामफलप्रदः त्वया सम्पूजितो राजन् सद्यश्रेयो विधास्यदि इत्युक्त्वा देवदेवेशो जगदाम पदिरच्युदः अन्तर्दधे मुनिश्रेष्ठ उत्तस्तौ सोऽपि भूपदिः किमिदं स्वप्न आहोस्वित् सत्यं साक्षाद् द्विजोत्तम भूपदेर्विस्मयं प्राप्त किं करोमीति विस्मिदः अथान्तरिक्षे वागुच्चैः प्राकतं भ्रान्तचेतसं सत्यमेतदिव्यक्रं न चिन्तां कर्तुमर्हसि तन्निशम्या वनीपाल ईशानं सर्वकारणं समस्तदेवदाराजमस्तौषीद्भक्ति तत्परः भगीरथ उवाच प्रणमामि जगन्नाथं प्रणतार्तिप्रणाशनं प्रमाणागोचरं देवमीशानं प्रणवात्मकम् जगद्रूपमजं नित्यं सर्गस्थित्यन्धकारणं विश्वरूपं विरूपाक्षं प्रणतोऽस्म्युग्ररेतसम् आदिमध्यान्तरहितमनन्दमजमव्ययं समामनन्दि योगीन्द्रास्तं वन्दे पुष्टिवर्धनम् नमो लोकाधिनाधाय वञ्चते परिवञ्चते नमोऽस्तु नीलग्रीवाय पशुनां पदये नमः नमश्चैतन्यरूपाय पुष्टानां पदये नमः नमो कल्पप्रकल्पाय भूतानां पदये नमः नमः पिनागहस्ताय शूलहस्तायते नमः नमः कपालहस्ताय पाश्यमुद्गरधारिणे नमस्ते सर्वभूताय खण्डाहस्तायते नमः नमः पञ्चास्य देवाय क्षेत्राणां पदये नमः नमः समस्तभूतानामादिभूताय भूभृते अनेकरूपरूपाय निर्गुणाय परात्मने नमो गणाधिदेवाय गणानां पदये नमः नमो हिरण्यगर्भाय हिरण्यपदये नमः हिरण्यरेधस्ये तुभ्यम् नमो हिरण्यवाहवे नमो ध्यानस्वरूपाय नमस्ते ध्यानसाक्षिणे नमस्ते ध्यानसंस्थाय ध्यानगम्याय ते नमः येनेदं विश्वमखिलं चराचरविराजितम् वर्षे वाभ्रेण जनिदं प्रधानपुरुषात्मना स्वप्रकाश्यं महात्मानं परं ज्योतिःसनातनं यमामनन्दितत्त्वज्ञा सवितारं नृचक्षुषाम् उमाकान्तं नन्दिकेश्यं नीलकण्ठं सदाशिवम् मृत्युञ्जयं महादेवं परात्परतरं विभुं परं शब्दब्रह्मरूपं तं वन्दे किल कपर्दिने नमस्तुभ्यं सद्यो जाताय वै नमः भवोद्भवाय शुद्धाय ज्येष्ठाय च मन्यवेद इषेत्रयाः पतये यज्ञतन्दवे ऊर्जे दिशां च पतये कालायाघोररूपिणे कुशानुरेतसे तुभ्यं नमोस्तु सुमहात्मने यदः समुद्रासरितोद्र यश्च गन्धर्वयक्षासुरसिद्धसङ्घाः स्थाणुश्चरिष्णुर्महदल्पकं च असच्च सज्जीवमजीवमास नतोऽस्मि तं योगिनताङ्घ्रिपद्मं सर्वान्तरात्मानमरूपमीशम् स्वतन्त्रमेकं गुणिनं गुणं च नमामि भूय प्रणमामि भूयः इत्थं स्तुदो महादेव शङ्करो लोकशङ्करः आविर्बभूवभूपश्य सन्तप्तपसोग्रतः पञ्चवक्त्रं दश चन्द्रार्धकृदशेखरं त्रिलोचनमुदाराङ्गं नागयज्ञोपवेदिनं विशालवक्षसं देवं तुहिनाद्रिसमप्रभं गजचर्माम्बरधरं सुरार्चितपदाम्बुजम् दृष्ट्वापपादपादाग्रे दण्डवत् भुवि नारद तद उद्धाय सहसा शिवाग्रे विहिताञ्जली प्रणनाममहादेवं कीर्तयञ्चङ्कराह्वयं विज्ञाय भक्त्रिं भूपस्य शङ्करः शशिशेखरः उवाच राज्ञे तुष्टोऽस्मि वरं वरय वाञ्छितं तोषितोऽस्मि त्वया सम्यक् स्तोत्रेण तपःसा तथा येवमुक्तः स देवेन राजा सन्तुष्टमानसः उवाच प्राञ्जलिर्भूत्वा जगदामीश्वरेश्वरम् भगीरथ उवाच अनुग्राह्योऽस्मि यदि देवरदानान्महेश्वर तदा गङ्गां प्रयच्छस्मत्पितॄणां मुगृहे दवे श्रीशिव उवाच दत्ता गङ्गामया तुभ्यं पितॄणां ते गदिः तुभ्यं मोक्षः परश्चेदि तं उक्त्वान्तर्दधे शिवः कपर्दिनोज्जाश्रस्ता गङ्गालोकैकपाविनी पावयन्ती जगत् सर्वमन्वगच्छद्भगीरथम् ततः प्रभृति सा देवी निर्मलामलहारिणी भागीरधिविख्यादा त्रिशुलोकेष्वभून्मुने सगरस्यात्मजा पूर्वं यत्र दग्धा स्वपाप्मना तं देशं प्लावयामा स गङ्गा सर्वसरिद्वरा यदा सम्प्लाविदम्भस्मसागराणां तु गङ्गया तदैव नरके मग्ना उद्धृताश्च गदै सह पुरा सङ्कुष्यमानेन ये यमेनादिपीडिताः त एव पूजितास्तेन गङ्गाजलपरिप्लुताः गदपांश्च विज्ञाय यमः सगरसम्भवान् प्रणम्याभ्यर्च्यविधिवत्प्राहतान् प्रीतमानसः इत्युक्तास्ते महात्मानो यमेन गदकल्मषाः दिव्यदेहधरा भूत्वा विष्णुलोकं प्रपेदिरे एवं प्रभावासा गंगा विष्णु पादाग्रसंभवा सर्वलोकेषु विक्यादा महापादकनाशिनी य इदं पुण्यमाख्यानं महापादकनाशनं पठेत् च शृणुयाद्वापि गङ्गास्नानफलं लभेद् यस्त्वेदत् पुण्यमाख्यानं कथयेद्ब्राह्मणाग्रदः स यादि विष्णुभवनं पुनरावृत्तिवर्जितम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्ये भागीरथगङ्गानयनं नाम षोडशोऽध्यायः ओम्